सप्तत्यधिकशततमोऽध्यायः अर्जुन उवाच तापत्य इति यद्वाक्यमुक्तवानसि मामिह तदहम् ज्ञातुमिच्छामि तापत्यार्थम् विनिश्चितम् तपती नाम का चैषा तापत्या यत्कृते वयम् कौन्तेया हि वयम् साधो तत्त्वमिच्छामि वेदितुम् वैशम्पायनोवाच एवमुक्तः स गन्धर्वः कुन्ती पुत्रम् धनञ्जयम् विश्रुताम् त्रिषु श्रावयामास वै कथाम् गन्धर्व उवाच हन्त ते कथयिष्यामि कथामेताम् मनोरमाम् यथावदखिलाम् पार्थसर्वबुद्धिमताम् पार्थ उक्तवानसि येन त्वाम् तापत्य इति तत्तेहं कथयिष्यामि शृणुष्वैकमनाभव य एष दिविधिष्ण्येन ना व्याप्नोति तेजसा एतस्य तपती सुता विवस्वतो वै देवस्य सावित्र्यवरजा विभो न ना देवी नासुरी चैव न ना यक्षी न च राक्षसी नाप्सरा न च गन्धर्वी तथारूपेण काचन सुविभक्ता नवद्याङ्गी स्वसितायतलोचना स्वाचारा चैव साध्वी च चा सुवेशा चैव भामिनी न तस्याः सदृशम् कञ्चित् त्रिषु भारत भर्तारम् सवितामेनेरूपशीलगुणश्रुतैः सम्प्राप्तयौवनाम् पश्यन् देयाम् दुहितरम् तुताम् नोपलेभे ततः शान्तिम् सम्प्रदानम् विचिन्तयन् अथर्क्षपुत्रः कौन्तेयकुरूणाम् ऋषभो बली सूर्यमाराधयामासन्नृपः संवरणस्तदा अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः नियमैरुपवासैश्च तपोभिर्विविधैरपि शुश्रूषुरनहंवादी शुचिः पौरवनन्दन अंशुमन्तम् समुद्यन्तम् पूजयामास भक्तिमान् ततः तपत्याः सदृशम् मेने सूर्यः संवरणम् पतिम् दातुमैच्छत्ततः कन्याम् तस्मै संवरणाय नृपोत्तमाय कौरव्यविश्रुताभिजनाय यथा हि दिवि दीप्ताम् तेजसा तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् यथार्चयन्ति चादित्यमुद्यन्तम् ब्रह्मवादिनः तथा संवरणम् पार्थब्राह्मणा आदित्यमतितेजसा बभूवन् श्रीमान सुहृदां दुर्हृदामपि एवम् गुणस्य नृपतेस्तथा वृत्तस्य कौरव तस्मै दातुम् मनश्चक्रे तपतीम् तपनः स्वयम् न कदाचिदथो राजा श्रीमानमितविक्रमः चचारमृगयाम् पार्थपर्वतोपवने किल चरतो मृगयाम् तस्य क्षुत्पिपासा समन्वितः ममारराज्ञः कौन्तेय गिरावप्रतिमोहय संता पिरौ नृप ददर्शा सदृशी लोके कन्यालोचना स एक कन्यादन तस्थ नृपतिशादूल पश्यचले सहितासो नृपतिश्रिय पुनः सन्तर्कयामासरवेर्भ्रष्टामि वप्रभाम् वपुषावर्चसा चैव शिखामिव वविभावसो। प्रसन्नत्वेन कान्त्या च चन्द्ररेखामि वामलाम् गिरिपृष्ठेतु सा स्थिता स्वसितलोचना विभ्राजमाना शुशुभे प्रतिमेव भिरण्मयि तै रूपेण स गिरी च सवृक्षुपलो हिरण इवाभव अव चा दृष्ट्वा सर्वोकेशु योषि अवाप्तं चात्मो मेने सराजा चुष फल जन्म प्रभृति यकिंचिदृष्टवान्महपतिप्म न सदृशं तस्तर्कयास किंचन तया बद्धमनश्चक्षुःपाशैर्गृणमयैस्तदा न च चाल ततो देशाद् बुबुधेन च किञ्चन अस्या लोकम् निर्मध्यधात्रेदम् रूपमाविष्कृतम् कृतम् एवम् सन्तर्कया कन्यामसदृशीम् लोके नृपः संवरणस्तदा ताम् च कल्याणीम् कल्याणाभिजनो नृपः जगाम मनसा चिन्ताम् कामबाणेन पीडितः दह्यमानः तीव्रेण नृपतिर्मन्मथाग्निना अप्रगल्भाम् प्रगल्भस्ताम् तदोवाच कासिकस्यासिरम्भोरु किमर्थम् चेह तिष्ठसि कथम् च निर्जनेरण्ये चरस्येकाशु चि स्मिते त्वम् हि सर्वानवद्याङ्गी सर्वाभरणभूषिता विभूषणमिवैतेषाम् भूषणानामभीप्सितम् न देवीम् नासुरीम् चैव न न च भोगवतीम् मन्ये न गन्धर्वीम् न मानुषीम् या हि दृष्टा वापि वराङ्गना न तासाम् सदृशीम् मन्ये त्वामहम् मत्तकाशिनि दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरम् तव वदनम् पद्मपत्राक्षम् माम् मथातीव मन्मथ एवम् ताम् समहीपालो बभाषे न तु सा तदा कामार्तम् निर्जनेरण्ये प्रत्यभाषत किञ्चन ततोलालप्यमानस्य पार्थिवस्यायतेक्षणा सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत तामन्वेष्टुम् स नृपतिः परिचक्राम सर्वतः वनम वनजपक्षक्षी भ्रमन्ुन्म्तव अपश्यम सतुता बहुत त्र विलप्य निश्चे पार्थिवश्रेष्ठो मुहूर्त सव्यतित महाभार आदिपर्णि चैत्ररथपर्वि तपस्ुप्या सप्तमोध्याय